हरि श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद् वाल्मीकिः रामायणे युद्धकाण्डे एकपञ्चाशत् सर्गः श्रीरामस्य बन्धनतो मोक्षं श्रुत्वा चिन्तितेन रावणेन धूम्राक्षस्य युद्धाय प्रेषणम् सेनापतिना सह तस्य नगरान् निर्गमनम् च तेषां तुमुलं शब्दम् वानराणाम् महोजसाम् नर्दताम् राक्षसैतालम् तदा शुश्राव रावणः स्निग्धगम्भीरनिर्घोषम् कृत्वा तम् निनदम् भुशम् सचिवानाम् तत तेषाम् मध्ये वचनमब्रवीत् यथासौ बहूनां सुमहनादौ मेघानाम्यव गर्जताम् सुव्यक्तम् महती प्रीति एतेषाम् मात्र संशयः तथापि विपुले नादै चक्षु भे लवणार्णवः तौ तु बद्धौ शरी तीक्ष्णैः भ्रातरौ शङ्काम् जनयतीव मे एवम् च वचनम् चोक्त्वा मन्त्रिणो राक्षसेश्वरः उवाच निृताम् तत्र समीपपरिवर्तिनः न्यायताम् तूर्णमयितेषाम् सर्वेषाम् च वनोकसाम् शोककाले समुत्पन्ने हारणमुत्थितम् तथोक्तास्ते सुसम्भ्रान्ताः प्राकारम् अधिरुह्य च ददृशु पालिताम् सेनाम् सुग्रीवेण महात्मना तौ च मुक्तौ सुहोरेण शरबन्धे न समुक्तितो महाभागो। महाभागौ विषेधु सर्वराक्षसः तन्त्रस्तृदया सर्वे प्राकारादवह्यते विवर्णा रक्षसा घोरा राक्षसेन्द्रम् उपस्थितः तरप्रियं दीनमुख रावणस्य च राक्षसाः कृत्नम् निवेदयामासु यथावद् वाक्यगोविदः यस्तौ इन्द्रजिता युद्धे भ्रातरो रामलक्ष्मणौ निबद्ध शरबंधेन नेत्रकंपुज कृत विमुक्त शरबंधेन दृश्यते तौरण जिरे पाशावोत् गजेन्द्र सामक्रमौ सुवा वचनम तक्षसेन्द्रो महाबलहे, चिंताशोक सक्रांतो विवर्ण वदनोभवत गोरे दत्त व्रैर्बद्धौ शरै्याशि विशोपमयि अमोघै सूर्यसङ्काशे प्रमथ्येन्द्रजितायुधि ततस्त्र बन्धमासाध्य यदि मुक्तो रिपु मम संशयस्थम् इदम् सर्वम् अनुपश्यामिहम्बलम् निष्फला खलु संवृत्ता शरा तेजसः आदत्तम् ययतु सङ्ग्रामे त्रिपूणाम् जीवितम् मम एवम् भुक्त्वा तु सङ्ग्रुद्धो निःश्वसन् उरगो यथा अब्रवीत् रक्षसाम् मध्ये नाम राक्षसम् बलेन महता युक्तो रक्षसाम् भीम विक्रमः संवधाय सु रामस्य सः वानरै एवम् उक्ता सु धूम्राक्षौ राक्षसेन्द्रेण धीमता परिक्रम्य तथा शीघ्रम् निर्जगामनुपालयात् अभिनिष्क्रम्य तद् द्वारम् बलाध्यक्षम् उवाचः पर्यस्व बलम् शीघ्रम् किञ्चिरेण युयुसतः धूम्राक्ष वचनं श्रुत्वा बलाध्यक्षो बलानुगः बलमद्यो जयामास रावणस्याज्ञया भुषम् ते बद्धघण्टा बलिनो घोररूपा निशाचरः विनद्यमाना संरुता धूम्राक्षम् पर्यवारयन् विविधा युधहस्ताश्च शूलमुद्गरपाणियः गदाभि पट्टिषैदण्डै आयसै मुसलैरपि परिघै भिन्दि पालै च भल्लै पाशे परश्वधैः निर्ययू राक्षसा घोरा नर्दन्तो जलदायथा रथै कवचनस्तान्ये द्वयै च समलङ्कृतये सुवर्णजालभितै करै च विविधाननैः हयै परमा शीघ्रै गजैश्चैव मधोत्कटैः निर्ययुर्नैतव्याघ्रा व्याघ्रायैव दुरासुदः वृकसिंह मुखैयुक्तम् करैकनकभूषितै कर अरुह रसं दिव्यम् धूम्राक्ष करनिस्वनः स्वनिर्यातो पश्चिमद्वारात् हनुमान् यत्र तिष्ठति रथप्रवरमास्थाय खरयुक्तम् खरस्वनम् प्रयान्तम् तु महाघोरम् राक्षसम् भीमदर्शनम् अन्तरिक्ष गता क्रूरा शकुना प्रत्यन् महाभीमो गुरुध्र निपपातः दयाग्रे ग्रसिता चैव निपेतु कुणपाशनः रुधिरार्द्रो महान् च्वेत कबन्ध पतितो भुविस्वरं च सूर्यन्नादाम् धूम्राक्षस्य निपातिते भवस्य रुधिरं देव सञ्चचाल च मेदिनी प्रतिलोमम् भवो वायु निर्घातश्च मन्निस्वनः तिमिरोघावृता तत्र दिशश्च चकाशिरे सत्युत्पान्तान्ततो दृष्ट्वा राक्षसानां भयावहान् प्रादुर्भूतान् च घोरांश्चे धूम्राक्षो व्यथितो भवेत् ममु सर्वे धूम्राक्षस्य पुरस्सरा ततस्तु भीमो बहुभि भी निशाचरे ऋतोभि निष्क्रम्य रणोत्सु कोबली ददर्शताम् राघवबाहु पारिताम् महोघकल्पाम् भुवान रिंचमम् इत्याशी श्रीमद् रामायणे वाल्मीकीयादिका वे युद्धकाण्डे रामचन्द्रार्पणमस्तु